हरिः ओं श्रीगुरुभ्यो नमः हरिः ओम् अस्य श्रीलितादिव्यसहस्रनामस्तोत्रमहामन्त्रस्य वशुन्यादिवाग्देवता ऋषयः अनुष्टुपछन्दः श्रीलितापरमेश्वरीदेवता श्रीमद्वाग्भवकूटेति बीजं मद्यकूटेति शक्तिः शक्तिकूटेति कीलकं श्रीलिता त्रिपुरसुन्दरीप्रसादसिद्ध्यर्थे सहस्रनामजपे विनियोगः ध्यानं सिन्दूरारुणविग्रहां त्रिनयनां माणिक्यमौलिस्फुरत्तारानायकशेखरां स्मितमुखी मापीनवक्षोरुहां पाणिभ्या मणिपूर्णरत्नचषकं रक्तोत्पलं बिभ्रतीं सौम्यां रत्नघटस्थरक्तचरणां ध्यायेत्परामम्बिकाम् अरुणां अणिमादिभिरावृतां मयूखैरहमित्येव विभावये भवानीं ध्यायेत्पद्मासनस्तां विकसितवदनां पद्मपत्रायताक्षीं हेमाभां पीतवस्त्रां करकलितलसत् हेमपद्मां वराङ्गीं सर्पालङ्कारयुक्तां सततमभयतां भक्तिनम्रां भवानीं श्रीविद्यां शान्तमूर्तिं सकलसुरनुतां सर्पसम्पत्प्रदात्रीम् सकुङ्कुमविलेपनामलिकचुम्बिकस्तूरिकां समन्दहसितेक्षणां सशरचापपाशाङ्कुशां अशेषजनमोहिनीमरुणमाल्यभूषाम्बरां जपाकुसुमभासुरां जपवितौ स्मरेदम्बिकाम् ॐ श्रीमाता श्रीमहाराज्ञी श्रीमत्सिंहासनेश्वरी चिदग्निकुण्डसम्भूता देवकार्यसमुद्यता उद्यद्भानुसहस्राभा चतुर्बाहुसमन्विता रागस्वरूपपाषाढ्या क्रोधाकाराङ्कुशोज्ज्वला मनोरूपेक्षुकोदण्डा पञ्चतन्मात्रसायका निजारुणप्रभापूरमज्जद्ब्रह्माण्डमण्डला चम्पकाशोकपुन्नागसौगन्धिकलसत्कचा गुरुविन्दमणिश्रेणीकनत्कोटीरमण्डिता अष्टमी चन्द्रविभ्राजदलिकस्तलशोभिता मुखचन्द्रकळङ्काभमृगनाभिविशेषका वदनस्मर माङ्गल्य गृहतोरणचिल्लिका वक्त्रलक्ष्मीपरीवाह चलन्मीनाभोचना नवचम्पकपुष्पाभ नासादण्डविराजिता ताराकान्ति तिरस्कारि नासाभरणभासुरा कदम्बमञ्जरीक्लिप्त कर्णपूरमनोहरा ताटङ्कयुगलीभूत तपनोडुपमण्डला पद्मरागशिलादर्श परिभाविकपोलभूः नवविद्रुमबिम्बश्री न्यक्कारिरदनच्छदा शुद्धविद्याङ्कुराकार द्विजपङ्क्तिद्वयोज्ज्वला कर्पूरवीटिकामोद समाकर्षद्दिगन्तरा निजसल्लापमाधुर्य विनिर्भत्सितकच्छपि मन्दस्मितप्रभापूर मज्जत्कामेश मानसा अनाकलितसादृश्य कामेशबद्धमाङ्गल्यसूत्रशोभितकन्धरा कनकाङ्गदकेयूरकमनीयभुजान्विता रत्नग्रैवेयचिन्ताकलोलमुक्ताफलान्विता का कामेश्वरप्रेमरत्नमणिप्रतिपणस्तनी नाभ्यालबालरोमालि लताफलकुचद्वयी लक्षरोमलताधार तासमुन्नेयमध्यमा स्तनभारदलन्मध्य पट्टबन्धवलित्रया अरुणारुणकौसुम्भवस्त्रभास्वत्कटीतटी रत्नकिङ्किणीकारम्य रशनादामभूषिता कामे शज्ञातसौभाग्यमार्दवोरुद्वयान्विता माणिक्यमकुटाकार जानुद्वयविराजिता इन्द्रगोपपरिक्षिप्तस्मरतूणाभजङ्गिका गूढगुल्फा कूर्मपृष्ठजयिष्णुप्रपदान्विता नखदीदिति पदद्वयप्रभाजालपराकृतसरोरुहा शिञ्जामणिमञ्जीरमण्डितश्रीपदाम्बुजा मराळीमन्दगमना महालावण्यशेवर्वारुणानवद्याङ्गी सर्वाभरणभूषिता शिवकामेश्वराङ्कस्था शिवा, शिवा स्वाधीनवल्लभा सुमेरुमद्यशृङ्गस्था श्रीमन्नगरनायिका चिन्तामणिगृहान्तस्ता पञ्चब्रह्मासनस्थिता महापद्माटवीसंस्ता कदम्बवनवासिनी सुधासागरमध्यस्था कामाक्षी कामदायिनी देवऋषिगणसङ्घातस्तूयमानात्मवैभवा भण्डासुरवधोद्युक्तशक्तिसेनासमावृता सम्पत्करी समारूढसिन्धुरप्रजसेविता अश्वारूढाधिष्ठिताश्च कोटिकोटिभिरावृता चक्रराजरतारूढ सर्वा युतपरिष्कृता गेयचक्ररथारूढ मन्त्रिणी परिसेविता किरिचक्ररथारूढदण्डनाथा पुरस्कृता ज्वालामालिनिका क्षिप्तवन्निप्राकारमद्यका भण्डसैन्यवधोद्युक्तशक्तिविक्रमहर्षिता नित्यापराक्रमाटोपनिरीक्षणसमुत्सुका भण्डपुत्रवधोद्युक्तबाला विक्रमनन्दिता मन्त्रिण्यम्बा विरचितविशङ्घवदतोषिता विशुक्रप्राणहरणवाराही वीर्यनन्दिता कामेश्वरमुखालोक कल्पितस्त्रीगणेश्वरा महागणेशनिर्भिन्न विघ्नयन्त्रप्रहर्षिता भण्डासुरेन्द्रनिर्मुक्त शस्त्रप्रत्यस्त्रवर्षिणी कराङ्गुलिनखोत्पन्न नारायणदशाकृतिः महापाशुपतास्त्राग्निर्दग्धासुरसैनिका कामेश्वरास्त्रनिर्दग्ध सभण्डासुरशून्यका ब्रह्मोपेन्द्र महेन्द्रादिदेवसंस्तुतवैभवा हरनेत्राग्निसन्दग्धकामसञ्जीवनौषधिः श्रीमद्वाग्भवकूटैकस्वरूपमुखपङ्कजा कण्ठादक्कटिपर्यन्तमध्यकूटस्वरूपिणि शक्तिकूटैकतापन्न कट्यधो भागधारिणि मूलमन्त्रात्मिकामूलकूटत्रयकलेपरा कुलामृतैकरसिकाकुलसंकेतपालिनी कुलाङ्गना कुलान्तस्ता कौलिनी कुलयोगिनी अकुला समयाचारतत्परा। समया मूलाधारैक निलया। मूलाधारैकनिलया विभेदिनी। मणिपूरान्तरुदिता विष्णुग्रन्थिविभेदिनि आज्ञा चक्रान्तराळस्था रुद्रग्रन्थिविभेदिनी सहस्राराम्बुजारूढा सुधासाराभिवर्षिणि तटिल्लता समरुचिषट्चक्रोपरि संस्थिता महाशक्ति कुकुंडलिनी विसतंतुतनीयसी भवानी भावना गम्याण्यकुटारिका भद्रप्रििया भद्रमूर्तिर्भक्ति सौभाग्यदानी भक्ति प्रिया भक्तिगम्या भक्तिवश्या भयापहा शां भवी शारदाराध्या शर्वाणी शर्मदायिनी शांक्रीक सांद्र निभानना शादरी शातिमती निराधारा निरंजना निर्लेपा निर्मला नित्या निराकारा निराकुला निर्गुणा निष्कला शान्ता निष्कामा निरुपप्लवा नित्यमुक्ता निर्विकारा निष्प्रपञ्चा निरास्रया नित्यशुद्धा नित्यबुद्धा निरवद्या निरन्तरा निष्कारणा निष्कळङ्का निरुपाधिर्निरीश्वरी नीरागारागमथनी निर्मदा मदनाशिनी निश्चिन्ता निरहङ्कारा निर्मोहामोहनाशिनी निर्ममा ममताहन्त्री निष्पापापनाशिनि निष्क्रोधाक्रोधशमनि निर्लोभालोभनाशिनि निःसंशयासं शयज्ञी निर्भवा भवनाशिनि निर्विकल्पा निराबाधा निर्भेदाभेदनाशिनि निर्नाशा मृत्युमथनि निष्क्रिया निष्परिग्रहा निस्तुला नीलचिपुरा निरुपाया निरत्यया दुर्लभा दुर्गमा दुर्गा दुःखहन्त्री सुखप्रदा दुष्टदूरा दुराचारशमनी दोषवर्जिता सर्वज्ञासान्ध्रकरुणा समानादिकवर्जिता सर्वशक्तिमयी सर्वमङ्गला सद्गतिप्रदा सर्वेश्वरी सर्वमयी सर्वमन्त्रस्वरूपिणी सर्वयन्त्रात्मिका सर्वतन्त्ररूपा मनोन्मनी माहेश्वरी महादेवी महालक्ष्मीर्मृडप्रिया महारूपा महापूज्या महा महामायामहासत्त्वा महाशक्तिर्महारतिः महाभोगामहेश्वर्या महावीर्या महाबला महाबुद्धर्महासिद्धर्महायोगेश्वरेश्वरी महातन्त्रा महामन्त्रा महायन्त्रा महासना महायागक्रमाराध्या महाभैरवपूजिता महेश्वरमहाकल्प महाताण्डवसाक्षिणी महाकामेशमहिषी महात्रिपुरसुन्दरी चतुष्षष्ट्युपचाराड्या चतुष्षष्टिकलामयी महाचतुष्षष्टिकोटियोगिनीगणसेविता मनुविद्या चन्द्रविद्या चन्द्रमण्डलमद्यगा चारुरूपा चारुहासा चारुचन्द्रकलाधरा चराचर जगन्नाथा चक्रराजनिकेतना पार्वती पद्मनयना पद्मरागसमप्रभा पञ्चप्रेतासनासीना पञ्चब्रह्मस्वरूपिणी चिन्मयी परमानन्दा विज्ञानघनरूपिणी ध्यानध्यादृध्येयरूपा धर्मा धर्मविवर्जिता विश्वरूपा जागरिणी स्वपन्ती तैजसात्मिका सुप्ता भानुमण्डलमध्यस्था भैरवी भगमालिनी पद्मासनाभगवती पद्मनाभसहोदरी उन्मेष निमिषोत्पन्न विपन्नभुवनावली सहस्रशीर्षवदना सहस्राक्षिसहस्रपाद आब्रह्मकीटजननि वर्णाश्रमविधायिनी निजाज्ञा रूपनिगमा पुण्या पुण्यफलप्रदा श्रुतिसीमन्तसिन्दूरीकृतपादाब्जदूलिका सकलागमसन्दोहशुक्तिसम्पुटमौक्तिका पुरुषार्थप्रदा पूर्णा भोगिनी भुवनेश्वरी अम्बिकानादिनिदना हरिब्रह्मेन्द्रसेविता नारायणी नादरूपा नामरूपविवर्जिता ह्रीं कारि ह्रीं मति हृद्या हेयोपादेयवर्जिता राजराजार्चिता राज्ञी रम्या राजीवलोचना रञ्जनी रमणीरं रमा राकेन्दुवदना रतिरूपा रतिप्रिया रक्षाकरी राक्षसघ्नी रामा रमणलम्पटा काम्या कामकलारूपा कदम्बकुसुमप्रिया कल्याणी जगती कन्दा कलावती कलालापा कान्ता कादम्बरीप्रिया वरदा वा वारुणी मदविह्वला विश्वादिका वेदवेद्या विन्द्याचलनिवासिनी विधा त्रिवेदजननि विष्णुमायाविलासिनी क्षेत्रस्वरूपा क्षेत्रेशी क्षेत्रक्षेत्रज्ञपालिनी क्षयवृद्धिविनिर्मुक्ता क्षेत्रपालसमर्चिता विजया विमला वन्द्या वन्दारुजनवत्सला वाग्वादिनी वामकेशी वन्निमण्डलवासिनी भक्तिमत्कल्पलतिका तापत्रयाग्निसन्तप्तसमाह्लादनचन्द्रिका तरुणीतापसाराद्यातनुमद्या तमोपहा चितिस्तत्पदलक्ष्यार्था चिते करसरूपिणी स्वात्मानन्दलपीभूतब्रह्माद्यानन्दसन्ततिः पराप्रत्यक्षितिरूपा पश्यन्ती परदेवता मध्यमावैखरीरूपा शृङ्गाररसम्पूर्णा जया जालन्धरस्थिता ओढ्यानपीठनिलया बिन्दुमण्डलवासिनी रहो यागक्रमाराध्या रहस्तर्पणतर्पिता सद्यः प्रसादिनि विश्वसाक्षिणी साक्षिवर्जिता षडङ्गदेवता युक्ता षाड्गुण्यपरिपूरिता नित्यक्लिन्नानिरुपमा निर्वाणसुखदायिनी नित्या षोडशिकारूपा श्रीकण्ठार्धशरीरिणि प्रभावती प्रभारूपा प्रसिद्धा परमेश्वरी मूलप्रकृतिरव्यक्ता व्यक्ता व्यक्तस्वरूपिणि व्यापिनी विविधाकारा विद्याविद्यास्वरूपिणि महाकामेशनयनकुमुदाह्लादकौमुदी भक्तःहार्दतमो भेदभानुमद्भानुसन्ततिः शिवदूती शिवाराध्या शिवमूर्तिशिवङ्करी शिवप्रिया शिवपरा शिष्टेष्टा शिष्टपूजिता अप्रमेया स्वप्रकाशा मनोवाचा मगोचरा चिच्छक्तिश्चेतनारूपा जडशक्तिर्जडात्मिका गायत्री व्याहृतिस्सन्ध्या द्विजवृन्दनिषेविता तत्त्वासना तत्त्वमयी पञ्चकोशान्तरस्थिता निःसी मम मदशालिनी मदघूर्णितरक्ताक्षी मदपाटलगण्डभूः चन्दनद्रवदिग्दाङ्गी चाम्पेयकुसुमप्रिया कुशला कोमलाकारा कुरुकुल्ला कुलेश्वरी कुलकुण्डालया कौळमार्गतत्परसेविता कुमारगणनाथाम्बा तुष्टिः पुष्टिर्मतिर्धृतिः शान्तिस्वस्तिमती कान्तिर्नन्दिनी विघ्ननाशिनी तेजोवती त्रिनयना लोलाक्षी कामरूपिणी मालिनी हंसिनी मातामलयाचलवासिनी सुमुखि नलिनी सुभ्रूशोभना सुरनायिका कालकण्ठीकान्तिमती क्षोभिणी सूक्ष्मरूपिणी वज्रेश्वरी वामदेवी वयोवस्था विवर्जिता सिद्धेश्वरी सिद्ध अनाहताब्जनिलया श्यामाभावदनद्वया दंष्ट्रोज्ज्वलाक्षमालाधिधरा रुधिरसंस्थिता कालरात्रादिशक्त्यौघभृता स्निग्धौदनप्रिया महावीरेन्द्रवरदा राकिण्यम्बा स्वरूपिणी मणिपूराब्जनिलया वदनत्रयसंयुता वज्रादिकायुधोपेता डामर्याधिभिरावृता रक्तवर्णा मां सनिष्ठा गुडान्न प्रीतमानसा समस्त समस्तभक्तसुखदालाकिन्यम्बा स्वरूपिणी स्वाधिष्ठानाम्बु जगता चतुर्वक्त्रमनोहरा शूलाद्यायुधसम्पन्ना पीतवर्णातिगर्भिता मेदो निष्ठा मधुप्रीता वन्दिन्यातिसमन्विता दध्यन्नासक्तहृदया काकिनीरूपधारिणी मूलाधाराम्बुजारूढा पञ्चवक्त्रास्थिसंस्थिता अङ्कुशादिप्रहरणा वरदादिनिषेविता मुद्गौ दनासक्तचित्ता साकिन्यं वा स्वरूपिणि आज्ञा चक्राब्जनिलया शुक्लवर्णाषडानना मज्जासंस्थाहंसवति मुख्यशक्तिसमन्विता हरिद्रा नैकरसिका हाकिनी रूपधारिणि सहस्रदलपद्मस्था सर्पवर्णोपशोभिता सर्वायुधरा शुक्लसंस्थिता सर्वतोमुखी सर्वौ दनप्रीतचित्ता याकिन्यं वा स्वरूपिणि स्वाहा स्वधामधर्मेधा श्रुतिस्मृतिरनुत्तमा पुण्यकीर्तिः पुण्यलभ्या पुण्यश्रवणकीर्तना पुलोमजार्चिता बन्धमोचनी बर्बराळका विमर्शरूपिणी विद्यावियदा द्विजगत्प्रसूः सर्वव्याधिप्रशमनी सर्वमृत्युनिवारिणी अग्रगण्या चिन्त्यरूपा कलिकल्मशनाशिनी कमलाक्षनिषेविता ताम्बूलपूरितमुखी दाडिमी कुसुमप्रभा मृगाक्षी मोहिनी मुख्या मृडानी मित्ररूपिणि नित्यतृप्ता भक्तनितिर्नियन्त्री निखिलेश्वरी मैत्र्यादिपासना लभ्या महाप्रलयसाक्षिणि पराशक्तिः परा निष्ठाप्रज्ञानघनरूपिणि माध्वीपानलसामत्ता मातृकावर्णरूपिणि महनीयातया मूर्तिर्महासाम्राज्यशालिनी आत्मविद्यामहाविद्या श्रीविद्याकामसेविता श्रीषोडशाक्षरीविद्या त्रिकूटाकामकोटिका कटाक्षकिङ्करीभूतकमलाकोटिसेविता शिरःस्थिता चन्द्रनिपा बालस्तेन्द्रधनुःप्रभा हृदयस्तारविप्रख्या त्रिकोणान्तरदीपिका दाक्षायणी दैत्यहन्त्री दक्षयज्ञविनाशिनी दरान्दोलितदीर्घाक्षी दरहासोज्ज्वलन्मुखी गुरुमूर्तिर्गुणनिधिर्गोमाता गुहजन्मभूः देवेशीदण्डनीतिस्तादहराकाशरूपिणी प्रतिपन्मुख्यराकान्ततिथिमण्डलपूजिता कलात्मिका कलानाथा काव्यालापविनोदिनी सचामररमावाणी सव्यदक्षिणसेविता आदिशक्तिरमेजात्मा परमापावना कृतिः अनेककोटिब्रह्माण्डजननी दिव्यविग्रहा क्लीङ्कारी केवला गुह्या कैवल्यपददायिनी त्रिपुरा त्रिजगद्वन्द्या त्रिमूर्तिस्त्रिदशेश्वरी त्र्यक्षरी दिव्यगन्धाड्या सिन्धूरतिलकाञ्चिता उमाशैलेन्द्रतनया गौरी ध्यानगम्या परिच्छेद्या ज्ञानदाज्ञानविग्रहा सर्ववेदान्तसंवेद्या सत्यानन्दस्वरूपिणी लोपामुद्रार्चिता लीलाक्लप्तब्रह्माण्डमण्डला अदृश्यादृश्यरहिता विज्ञात्रीवेद्यवर्जिता योगिनी योगदा योग्या योगानन्दा युगन्धरा इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिस्वरूपिणि सर्वाधारा सुप्रतिष्ठा सदसद्रूपधारिणी अष्ट मूर्तिर जाकयात्रा विधायकनी एकाकिनी भूमरूपा अन्नदा वसुदा वृद्धा ब्रह्मात्मक्यस्वू बृहती ब्राह्मणी ब्राह्मी ब्रह्मनंद बलिप्रििया भाषारूपा बृहत्सेना भावा भाव सुखाराद्या शुभकरी शोभना सुलभा गतिः राजराजेश्वरी राज्यदायिनी राज्यवल्लभा राजकृपाराजपीठनिवेशितनिजाश्रिता राज्यलक्ष्मीः कोशनाथा चतुरङ्गबलेश्वरी साम्राज्यदायिनी सत्यसन्धासागरमेखला दीक्षितादैत्यशमनी सर्पलोकपशङ्करी सर्पार्तदात्री सावित्री सच्चिदानन्दरूपिणी देशकाला परिच्छिन्ना सर्पगा सरस्वती शास्त्रमयी गुहाम्बा गुह्यरूपिणि सदा शिवपतिप्रदा सम्प्रदायेश्वरी सा द्विगुरुमण्डलरूपिणि कुलोत्तीर्णाभगाराद्या माया मधुमतीमही गणाम्बा गुह्यकाराद्या कोमलाङ्गी गुरुप्रिया स्वतन्त्रा सर्पतन्त्रेशी दक्षिणामूर्तिरूपिणि सनकादि सनकादिसमाराध्या शिवज्ञानप्रदायिनी चित्कलानन्दकलिका प्रेमरूपा प्रियङ्करी नामपारायणप्रीता नन्दिविद्यानटेश्वरी मिथ्याजगदधिष्ठाना मुक्तिदामुक्तिरूपिणि लास्यप्रियालयकरी लज्जारम्भादिवन्दिता भवदा वसुधा वृष्टिः पापारण्यदवानला दौर्भाग्यतूलवातूला जरा ध्वान्तरविप्रभा भक्त भाग्याद्दिचंद्रिका भक्तचित घना घना रोकपर्वतंभर्मृतुदारुकुटारिका महेशरी महाकाशना अपर्ना चिका चंड मुंडाणिशूदिनी क्षराक्षरात्का सर्पलोकेशी विश्वधारिणी त्रिवर्गदात्रिुभात्र्यंबकागुत्म स्वर्गापर्गदुद्धा जपुष्प निभाति ओजोऽवती द्युतिधरा यज्ञरूपा प्रियव्रता दुराराद्या दुरादर्शा पाटली कुसुमप्रिया महती मेरुनिलया मन्दारकुसुमप्रिया वीराराध्या विराड्रूपा विरजा विश्वतोमुखी प्रत्यग्रूपा पराकाशा प्राणदा प्राणरूपिणी मार्ताण्डभैरबाराध्या मन्त्रिणी न्यस्तराज्यधूः त्रिपुरेशी च यत्सेनानिस्त्रैगुण्या परा परा सत्यज्ञानानन्दरूपा सामरस्यपरायणा कपर्दिनी कलामाला कामधुः कामरूपिणी कलानिधिः काव्यकला रसज्ञा रसशेवदिः पुष्टा पुरातना पूज्या पुष्करा पुष्करेक्षणा परं ज्योतिः परं धामा परमाणुः परात्परा पाशहस्ता पाशहन्त्री परमन्त्रविभेदिनी मूर्ता मूर्ता नित्यतृप्ता मुनिमानसहंसिका सत्यव्रता सत्यरूपा सर्वान्तर्यामिनी सती ब्रह्माणि ब्रह्मजननी बहुरूपा बुधार्चिता प्रसवित्री प्रचण्डाज्ञा प्रतिष्ठा प्रकटाकृतिः प्राणेश्वरी प्राणदात्री त्रिपञ्चाशत्पीठरूपिणी विशृङ्खला विविक्तस्ता वीरमाता मूलविग्रहरूपिणी भावज्ञा भवरोगग्नी भवचक्रप्रवर्तिनी छन्दः सारा शास्त्रसारा मन्त्रसारा तलोदरी उदारकीर्तिरुद्धामवैभवापर्णरूपिणि जन्म मृत्युचरा तप्त जनविश्रान्तितायिनी सर्वोपनिषदुद्घुष्टा शान्त्यतीतकलात्मिका गम्भीरा गगनान्तस्था गर्पिता गानलोलुपा कल्पना रहिता काष्ठा कान्ता कनत्कनकताटङ्का लीलाविग्रहधारिणि अजाक्षयविनिर्मुक्ता मुक्ता क्षिप्रसादिनि अन्तर्मुखसमारात्या बहिर्मुखसुदुर्लभा त्रयी त्रिवर्गनिलया त्रिस्था त्रिपुरमालिनी निरामया निरालम्बा स्वात्मा रामासुधा श्रुतिः संसारपङ्कनिर्मग्नसमुद्धरणपण्डिता यज्ञप्रिया यज्ञकर्त्री यजमानस्वरूपिणि धर्माधारा धनाध्यक्षा धनधान्यविवर्धिनि विप्रप्रिया विप्ररूपा विश्वभ्रमणकारिणि विश्वग्रासा विद्रुमाभाव वैष्णवी विष्णुरूपिणि अयोनिर्योनिनिलया कूटस्थाकुलरूपिणि वीरगोष्ठी प्रिया वीरा नैष्कर्म्यानादरूपिणि विज्ञानकलनाकल्या विदग्धा भैन्दवासना तत्त्वाधिका सामगान प्रिया सौम्या सदा शिवकुटुंबिनी सप्याप सर्गस्था सर्वाप्निवार स्वस्थास्वभा मधुरा धीरा धीरसमर्चिता चैतनर्घ्यसम्या चैतन्यकुसुमिता सदा तुष्टा तरुणादिपाटला दक्षिणा दक्षिणाराध्या दर स्मेर मुखाबुजा कौलिनी केला नर्घ्यकल्यपदाय स्तोत्रप्रिया स्तुतिमती श्रुतिसंस्तुतवैभवा मनस्विनी मानवती महेशी मङ्गलाकृतिः विश्वमाता जगद्धात्री विशालाक्षिविरागिणि प्रगल्भापरमोदारापरामोदा मनोमयी व्योमकेशी विमानस्थावज्रिणी वामकेश्वरी पञ्चयज्ञप्रिया पञ्चप्रेतमञ्जातिशायिनी पञ्चमी पञ्चभूतेशी पञ्चसङ्ख्योपचारिणि शाश्वती शाश्वतैश्वर्या शर्मदा शम्भुमोहिनी धराधरसुता धन्या धर्मिणि धर्मवर्धिनी लोकातीता गुणातीता सर्वातीता शमात्मिका बन्धुककुसुमप्रख्या बालालीलाविनोदिनी सुमङ्गली सुखकरी सुवेशाढ्या सुवासिनी सुवासिन्यर्चनप्रीता शोभना शुद्धमानसा बिन्दुतर्पणसन्तुष्टा पूर्वजा त्रिपुराम्बिका दशमुद्रासमारात्या त्रिपुरा श्रीवशङ्करी ज्ञानमुद्राज्ञानगम्या ज्ञानज्ञेयस्वरूपिणी योनिमुद्रा त्रिखण्डेशी त्रिगुणाम्बा त्रिकोणगा अनघाद्भुतचारित्रा वाञ्छितार्थप्रदायिनी अभ्या अभ्यासातिशयज्ञाता षडध्वातीतरूपिणी अव्याजकरुणामूर्तिरज्ञानध्वान्तदीपिका आबालगोपविदिता सर्वानुल्लङ्घ्यशासना श्रीचक्रराजनिलया श्रीमत्त्रिपुरसुन्दरी श्रीशिवाशिवशक्त्यैक्यरूपिणी ललिताम्बिका एवं श्रीललितादेव्या साहस्रकं जगुः हरिः ओम्